अथ द्वादशः सर्गः स तस्य मध्ये भवनस्य संस्थितो लता ग्रहांश्चित्रगृहान् ग्रहां निशाग्रहान् जगामसीताम् प्रतिदर्शनोत्सुको न पश्यति चारुदर्शनाम् स सततो महाकविः प्रियामपश्यन् रघुनन्दनस्य ध्रुवम् न ध्रियते यथा न मे विचिन्वतो दर्शनमेति मैथिली साराक्षसानाम् प्रवरेण जानकी स्वशील संरक्षण तत्परा सती अनेन नूनम् प्रति दुष्टकर्मणा हता भवेदार्य पथे परे स्थिता विरूपरूपा विकृता विवर्चसो महानना दीर्घ समीक्ष्यता राक्षस राजयोषितो भयाद्विनष्टा जनकेश्वरात्मजा सीतामदृष्ट्वा ह्यनवाप्यपौरुषम् विहृत्य कालम् सह वानरैश्चिरम् नमेस्ति सुग्रीव समीपगा गतिः सुतीक्ष्णदण्डो बलवांश्च वानरः दृष्टमन्तः पुरम् दृष्टा रावणयोषितः न सीता दृश्यते साध्वी वृथा जातो मम श्रमः किम् नु माम् वानराः सर्वे गतम् वक्ष्यन्ति सङ्गताः गत्वा तत्र त्वया वीरकिम् तद्वदस्वनः अदृष्ट्वा किम् प्रवक्ष्यामि तामहम् जनकात्मजा ध्रुवम् प्रायमुपासिष्ये कालस्य व्यतिवर्तने किम् वा वक्ष्यति वृद्धश्च जाम्बवाणङ्गदश्च सः गतम् पारम् समुद्रस्य वानराश्च समागताः अनिर्वेदश्रियोमूलमनिर्वेदः परम् सुखम् अनिर्वेदो हि सततम् सर्वार्थेषु प्रवर्तकः करोति सफलम् जन्तोः कर्म करोति सः तस्मादनिर्वेदकरम् यत्नम् चेष्टेऽहमुत्तमम् भूयस्त्र विचेश्या नचय कदृष्टाश्च विच्या देशन रावण पालिता आनशाला विचिता चिंत्रशलाचिता भूय क्रीडागृहा निष्कुटाथ्याशि विचेत मुपचक्रे भूमिगृहांश्चैत्यगृहा गृहातिग्रहकानपि ग्रहा उत्पतन्निपतम्श्चापि तिष्ठन् गच्छन् पुनः क्वचित् अपवृण्वंश्च द्वाराणि कपाटान्यवघट्टयन् प्रविशन् निष्पतम्श्चापि प्रपतन्नुत्पतन्निव सर्वमप्यवकाशम् स विचारमहाकपिः चतुरङ्गुलमात्रोऽपि नावकाशः स विद्यते रावणान्तः पुरे तस्मिन् यङ्कपिर्न जगामसः प्राकारान्तरवीथ्यश्च वेदिकाश्चैत्यसंश्रयाः शभ्राश्च पुष्करिण्यश्च सर्वम् तेनावलोकितम् राक्षस्यो विविधाकारा विरूपा विकृतास्तथा दृष्टा तत्र न रूपेणाप्रतिमालोके परा विद्याधरस्त्रियः दृष्टा हनुमता तत्र न तु राघवनन्दिनी नागकन्यावरारोहाः पूर्णचन्द्रनिभारनाः दृष्टा हनुमता तत्र न तु सा जनकात्मजा प्रमथ्य राक्षसेन्द्रेण नागकन्याबलाद्धृताः दृष्टा हनुमता तत्र न स्वपश्यम्स्ताम् महाबाहोः पश्यंश्चान्यावरस्त्रियः विषसाद महाबाहुर्हनूमान् मारुतात्मजः उद्योगम् वानरेन्द्राणाम् प्लवनम् सागरस्य च व्यर्थम् वीक्ष्या निलसुतश्चिन्ताम् पुनरुपागतः अवतीर्य विमानाच्च हनूमान् मारुतात्मजः चिंता मुपजगामाथ शोकोपहतचेतन इशे श्रीमद्राणे वाक्ये सुंदरकांडे द्वादश सर्ग